हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याकाण्डे द्विसप्तति तम सर्गः कैकेयी भवेन प्रविश्य भरतेन तस्य समक्षे प्रणमनम् तन्मुखादेव पितुः परलोकवासव्रतं विज्ञाय दुःखितस्य तस्य विलापः क्व तदानीं श्रीराम इति प्रश्ने कैकेयी मुखादेव श्रुत्वा तेन श्रीरामः वनगमनाविषयकवृत्तस्य ज्ञानम् अपश्यन्स्तु तदा तत्र पितरं पितुरालये जगाम भरतो द्रष्टुम् मातरम् मातुरालये अनुप्राप्तं तु कैकै दृष्ट्वा सुतं। प्रोषितं सुतम् उत्पपात तदा हृष्टाय त्यक्त्वा सौवर्णमासनं स्वप्रवेश्यैव धर्मात्मा स्वगृहम् श्रीविवर्जितम् भरत प्रेक्ष्य जग्राह जनन्याचरणौ शुभौ तम् मूर्धयि तमुपाघ्राय परिष्वज्य यशस्विनम् अङ्के भरतमारोप्य प्रष्टुं तमुपचक्रमे अद्यते कतिचित् रात्र्या चतु चुतस्यार्य कवेश्मनः अपि नाभ श्रम क्षीरम् रथे न पततस्तव आर्यकस्ते सुकुशली युधाजिन्मातुलस्तव प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि एवं पृच्छत्तु कैकेय्या प्रियं पार्थिव नन्दनः भर्त सर्वम् मात्रे राजीव अद्य मे सप्तमे रात्रि चुतस्यार्य कवेज्मनः अम्बाया कुशले तातो युधाजिन्नातुलश्च मे यन्मे धनं च रत्नञ्च ददो राजा परन्तपरिश्रान्तम् पथ्य भवेत् ततोऽहम् पूर्वमागतः राजवाक्य हरेर्दूतैः पर्यमाणोऽहमागतः यदम प्रशुम्छा तदंबा वक्त अर्ति शून्यों शयनीय पर्यको हे मूषि न चा मिख्वाकुजन प्रवृ प्रतिभाति मे राजा भूयिठाया निवेश तमहम न्य पश्या द्रटमीछन ग ीषे पादो च तन्ममाख्याय पृच्छतः आहोस्विदम्बा ज्येष्ठाय कौसल्याय निवेशने तं प्रत्युवाचकैकै प्रिय वैद्घोरम् प्रियम् अजानन्तं प्रजानन्ति राजलोभेन मोहिता या गति सर्वभूतानां तां गतिं ते पितागतः राजा महात्मा तेजस्वी या यजूकता गति त्रुवा भर तो वाक्यं धर्मीजन वन शुचि पपत स सू पितृशोक बलार् हतोस्मी कृपाण दीना वाच मुदीर निपत महबू बहु विषिप्यीर्यवण तथीत पितुमरण दुःखितः विललाप महतेजान्तः कुलितचेतनः एतत् सुरुचिरं भाति पितुर्मे शयनं पुरः शशिनैवलं रात्रौ गगनं तु यदात्यये कम् न विवाहत्यज विहीनं तेन धीमत, व्योमेन शशिना हीनम् अक्षुष्क सागरः बाष्पम् मृत्युज्य कण्ठेन स्वात्मना परिपीडितः प्रच्छाद्य वदनम् श्रीमत् वस्त्रेण जयताम्बरः संवातम् देव सङ्घाषम् समीक्ष्य पतिशम्भुवि निकृत्तम् इव शालस्य स्कन्धम् परशुनावने माता मातङ्गाशम् चन्द्रार्कसदृशं सुतम् उत्थिशोका वचन चेदम ब्रवी उठे राजोचंती सन्तः सदस्य सार यीलुति तपोन गुद्धि से बुद्धिपन्न प्रभे क्य मे स्वृति काचम गोमोपरि विवृत्य जननी प्रत्युवाचेदम शोक बहुवी आवृत अभिषेक तेजं तो राजा यम यक्षत दृष्टो यात्रा मैं आशिषं तदिदूत व्यवतीर्णमो म वितरं न पश्यामि नित्यं प्रिय हि ते तम् अम्बके नात्यगाद राजा गाधिना नागते धन्या रामा वेत् सर्वे यै पिता संस्कृत स्वयं न मां महाराज प्राप्तं जानाति कीर्तिमहन् उपजिघ्रे तु मां मूर्नि तातस्वन्नाम्य स्वच्छ पाणि सुखस्पर्श तातस्याक्लिश्य कर्मणः यो हि मां रजसा ध्वस्तम् अभिक्रम परिमार्जति यो मे भ्राता पिता बन्धु यस्य रासोऽस्मि सम्मतः तस्य मां शीघ्रमाख्यायि रामस्याक्लिष्टकर्मणः पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः तस्य पादो ग्रहीष्यामि स हिरा नितिर्मम धर्मवि महाभागो दृढव्रत अव्ये किम् अब्रवीत् राजा पिता मे सत्यविक्रमः पश्चिमं साधु सन्देशम् इच्छामि श्रोतृमात्मनः इति पृष्टा यथा तत्त्वं रामेति राजा विलपन् आसीत् लक्ष्मणेति च स महात्मा परं लोकम् गतो मति मताम्बरः इतीमां पश्चिमां वाचम् गजहर पिता तव कालधर्मं परिक्षिप्त पाशेरेव महागज सिद्धार्थासू नरारामं अगतं सह सीतय लक्ष्मणं च महबाहुम् रक्षन्ति पुनरागतम् तच्छ्रुत्वा विश्वसदैव द्वितीयप्रियसंसर विषय भूय पप्रच्छमातरम् क्व चेदानीं च धर्मात्मा कौसल्यानन्दवर्धनः लक्ष्मणेन स भ्रात्र सीतया च समागतः तथा पृष्टा यथा न्यायम् आख्यातुम् अपचक्रमे मातास्य युगपद् वाक्यम् विप्रियं प्रियशंसय वै राज सुधपुत्रे श्रीरवास महनम् दण्डकान् सः वैदेह लक्ष्मणः नु चरोगतः तच्छ्रुत्वा भरतत्रस्तु भ्रातु चारित्र स्वस्य वंशस्य माहात्म्य प्रष्टुम् समुपचक्रमे कश्चिन्न ब्राह्मण कृतं रामेण कस्यचित् कश्चिन्नाढ्यो दरिद्रो वा तेनापापो विंसितः कश्चिन्न परदारान् वा राजपुत्रोऽभिमन्यते कस्मात् स दण्डकारण्ये भ्राता रामो तह, चपला माता तत् स्वकर्म यथा तथं तेनैव स्त्री एवं उक्तः तु कैकेयी भरतेन महत्मन वाचे वचनं हृष्ट वृथा पण्डितमानिनी न ब्राह्मण धनं किञ्चित् घृतं रामेण कस्यचित् कश्चित् नाढ्यो दरिद्रो वा तेना पापो विञ्चत न राम परदारांस चक्षुभ्याम् अपि पश्यति मया तु पुत्र रामस्य हाविषेचनम् याचितस्ते पिता राज्यम् रामस्य च विवासनं स स्ववृत्तिं समास्थाय पिता ते ते ततः करोत् रामस्तु सौमित्री प्रेषितः स प्रियं पुत्रम् महिपालो महयश पुत्रशोक प्रीद्योन् पञ्चतम् उपपे त्वया तु इदानीम् धर्मद्य राजत्वमवलम्ब्यताम् सकृते मया इदम् एवंविधम् विधं मा शोकम् मा च सन्तापम् धैर्यमाश्रय पुत्रयिनगरी राज्यं चेतदनामयम् तत्पुत्र शीघ्रम् विधिना विधिज्ञै वसिष्ठ सङ्काल्य राजानमदीन स तम् आत्मानमूर्व्याम्बविषेचये स्वीत्यामय वाल्मीकियादिकाव्ये अयोध्याकाण्डे द्विसप्तति तमा सर्ग हे श्रीसीता रामचन्द्रर्मणमस्तु